अथ नवनवत्यधिकशततमोऽध्यायः वैशम्पायन उवाच ततो राज्ञां चरैराप्तैः प्रवृत्तिरुपनीयता पाण्डवैरुपसम्पन्ना द्रौपदीपतिभिः शुभा येन तद्धनुरादाय लक्ष्यम् विद्धम् महात्मना सोऽर्जुनो जयताम् श्रेष्ठो महाबाणधनुर्धरः यः शल्यम् मद्रराजम् वै प्रोत्क्षिप्यापातयद्बलि त्रासयामास सङ्क्रुद्धो वृक्षेण पुरुषान्द्रणे न चास्य सम्भ्रमः कश्चिदासीत्तत्र महात्मनः स भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ब्रह्मरूपधरान् श्रुत्वा प्रशान्तान् पाण्डुनन्दनान् कौन्तेयान्मनुजेन्द्राणाम् विस्मयः समजायत सपुत्रा हि दग्धा जतु श्रुता पुनर्जातानि वच तांस्ते मन्यन्तनराधिपाः धिग कुर्वंस्तदा भीष्मम् धृतराष्ट्रम् च कौरवम् कर्मणातिनृशंसेन पुरोचनकृतेन वै धार्मिकान् वृत्तसम्पन्नान् मातुः प्रियहिते रतान् यदा तानीदृशान् पार्थानुत्सादयितुमिच्छति